श्रीहरये नमः अथ द्वादशोऽध्यायः रघुकण नमो नमः कारणविग्रहाय स्वरूपदुच्चीकृतविग्रहाय नमो बधूतद्विजबन्तुलिङ्गनिगूटनित्यानुभवाय तुभ्यं ज्वरामयार्थस्य यदा गतं निघातधस्य यथा हि माम्बहा कुदेहमाना विदष्टधृष्टेर्ब्रह्मन्वचस्ते मृतबौषधं मे तस्माद्भवं तं मम संशयार्थं प्रक्षामि पश्चात् अधुना सुबोधम् अध्यात्मयोगघृतितं तवोक्तम् आह्याकिकौतूहलचेतसो मे यदाकयोगेश्वरदृश्यमानम् क्रियाफलं सद्व्यवहारमूलं न ह्यञ्झसा तत्त्वविमर्शनाय भवानमुष्मिन् भ्रमते मनो मे ब्राह्मण उवाच अयं जनो नाम नामचलं पृथिव्यां यः पार्थिवः पार्थिवकस्य हेतोः तस्याभिषाङ्कर्योरधिगुल्पजङ्घ जानूरुमत्योरशिरोधरां साहांसेति धार्वी सिपिका च यस्यां सौवीरराजेत्यपदेश आस्ते यस्मिन् भवान् रूटनिजाभिमानो राजास्मि सिन्धुष्विति तुर्मधान्तः शोचानि मां विष्ट्या वृष्ट्या निगृह्णन्निरनुग्रहोऽस्य जनस्य गुप्तास्मि विकत्तमानो नसोबसे सो बसे वृद्धसभासु दृष्टः चराचरस्य विधामनुष्ठां प्रभवं च नित्यं तन्नामतोऽन्यद्व्यवहारमूलं निरूप्यतां सत्क्रिययानुमेयं एवं निरुक्तं क्षितिशब्दवृत्तम् असन्निधानात् प्रमाणवो अविद्यया मनसा कल्पितास्ते येषां समूहेन कृतो विशेषः एवं कृसंस्थूलमनुर्बृहद्यत् असच्च सज्जीवमजीवमन्यत् द्रव्यस्वभावाशय नाम्ना जया कृतं द्वितीयं ज्ञानं विशुद्धं परमार्थमीकं। अनंतरं तु ब्रह्मसत्यं। प्रत्यक्प्रशान्तं भगवत् शब्दसंज्ञं यद्वासुदेवं कवयो बधन्ते रघुगणैतत्तपसानयाति न शय निर्पणात् गृहाद्वा नच्छन्तसा नैव जलाग्निसूर्यैर्विनामहपाधरजोऽभिषेकं यत्र उत्तमश्लोकगुणानुवादः प्रस्तूयते ग्राम्यकथाविघातः निषेव्यमाणोऽनुदिनं मुमुक्षोर्मं सतीं यच्छति वासुदेवे अहं पुरा भरतो नाम राजा विमुक्तदृष्टश्रुतसङ्घबन्धः आराधनं भगवत ईह मानो मृगो भवं मृगसङ्गहतार्तः सा मां स्मृतिर्मृगदेहेऽपि वीर कृष्णार्चनः प्रभवा नो जहाति अतो अहं जनसङ्गातसङ्घो विसङ्खमानो विवृतश्चरामि तस्मान्नरो सङ्ग सुसङ्घजात ज्ञानासिनेहैव विवृग्नमोहः हरिं तदीहा कदनश्रुधाभ्यां लब्धस्मृतिर्यात्यतिपारमध्वनः इति श्रीमद्भागवते महापुराणे पञ्चमस्तन्ते ब्राह्मणरघुगणसंवादे द्वादशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरुनाथमहाराज के जय